गणेशपुराणम् उपासनाखण्डम् अध्यायं तर्टि नैन् व्यास उवाच तद किमकरोद्ब्रह्मस्त्रिपुरो वरदर्पितः तत्सर्वं कौतुकं मह्यं वक्तुमर्हस्य शेषतः ब्रह्मोवाच तथा काश्मीरपाषाणभवां मूर्तिं गजाननीं स्थापयामास विधिवद् ब्रह्मणाैर्मकोवितैः महान्तं काञ्चनं दिव्यं मणिमुक्ता विभूषितं गणेशपुरमध्ये सत्प्रासादं कृतवान् शुभम् उपचारैषोडशभिः पूजयामास तं विभुम् नमस्कार संख्यादि प्राथन क्षमा देदेव्य मनुप्य यय बदनाने ब्राह्मणे यदवस्थलापुरुर गणेशपुरमित्येवं सर्वेषां सर्वसिद्धितं ततः स त्रिपुरो दैत्यो गजाननवरोद्धतः नृलोकान् पालयामास देवानामाक्रमे रदः पदात्तयस्तुरङ्गश्च गजाश्च दश दिभ्यो ययुस्त तो सैवाथ बलवत्राजान सेवका जाद आनुकूल्य प्रतिकूला गृत्यु युद्ध कर्म मुनीशराक्रम्य भूखंडदगामरावती तद इन्द्रो देवगणै नौ नायुद्धकरे पृतः ऐरावदसमारूढो ययौ युद्धाय दंशितः सोऽपि सेनां चक्रे चतुरङ्गां महाबलः भीमकायं महादैत्यं वज्रदंष्ट्रं च दानवं धनुर्युद्धे गदायुद्धे शस्त्रयुद्धे च कोविदं अस्त्रयुद्धे मल्लयुद्धे निश्नादं दैत्यपुङ्कवं भीमकायमवोचत्स नृलोकस्याधिपो भव कालकूटं वज्रदंष्ट्रं जगादत्रिपुरो बली सेनया त्वं रसातलम् से शेषमुख्यान् सर्वनागान् गुरु कुरु ममायजान् अहं त्रिभागया शक्रमाक्रमिष्येखिलान् सुरान् भौमकायो वज्रदंष्ट्रो यथाज्ञतोऽप्रतस्तदुः चतुरङ्गबलैर्युक्तस्वयं नन्दनमाययौ दिव्यान् वृक्षान् बभञ्जुस्ते वार्यमाणास्तु सैनिकाः तत्र स्थित्वा दैत्यराजो दूतान् शक्रायप्राहिणोद अत्रा नयन्तु तं दर्शनाय त्वरान्विताः वदन्तु मम वाक्यं वा मृत्युलोकं व्रजाधुना तत्र पालयिष्यामि साम्ना देह्यमरावतीं यदि युद्धे चदे बुद्धिस्तदा शीघ्रं प्रयाहि मां ते गत्वा शक्रमाचक्युस्त्रिपुरा श्रुत्वेत्थं वचनं तेषां वज्रासद इवाचल चकम्बे चाचलरिपुर्वायुने वयधातरुः चिन्तया व्याकुलीभूदः किमे ददिति चिन्तयन् क्रोथानलेन जज्बालसंरक्दाखिललोचनः कुर्वन् भस्मेव लोकानां शोषयन्निव वारिधीन् उवाच दूदान् गच्छन्तु युद्धाय सत्वराः स्वयमैरावतारूढो जगर्ज सुरशत्रुः तेन नादेन महदाक्षो भयन् भुवनत्रयं श्रुत्वा तद्वचनं ते दुगदा दूधः यथा गतं विबुधाश्चापि सन्नद्धा नाना शस्त्रासि पाणयः भिण्डिपालकरा केचित् केजिच्छक्त्यष्टि पाणयः मुदरासीधरा केजिधनुर्बाणकरे गेडकेजि जिद्ध के दंडपाणय दैवगणु वज्रभृनि कृतस्वस्तयनो विप्रइर्नावादिस्व त्रिपुरो दूधवाक्य ज्ञावा युद्धोद्यमं तुत सन्न मकोत्स प्रहृषा चु असंख्याय परदृश्य दुस्ते से वीरभूषणे कोलाहलो महानासित ब्रंहितैर्हेषितैरपि क्ष्वेडितैरथघोषैश्च वाद्यकोषैरनेकधा ततो हुङ्कारमात्रेण नोदिता स्त्रिपुरेण ते वीरा युयुधिरे देवै ससम्मर्दो महान्भूद नाभूत् स्वपरबोधोऽपि जग्नुरेव परस्परं एवं सुदुमुले जन्ये मृतास्ते दानवा बहु सुमनसोपि पतिता दैत्यशस्त्रप्रपीडिताः बभुस्ते सैनिकास्तत्र पुष्पिता इव अशय्या शयिदा केचिदङ्घ्रिहीनास्तथा परे क्रमेलकागदाध्यक्षारथाश्वाश्च पदातिनः तदपलायनपरा दैत्या यादादिशो तदो निवार्य तत्सैन्यं वृन्दारकरिपुस्वयं क्रोथानलमहाज्ज्वालो गर्जन्मेक इवापरः शत्रुसान्निध्यमगमद्भक्षयन्निवरोदसी स्वखड्गेनाहनतीव्रं हस्तं वज्रधरं हरेः वज्रम्पपाद तद्धस्तात्तदद्भुतमिवाभवद तदा दायाहनद्दैत्यस्तेनैवैरावतं गजम् ऐरावधःप्रहारेण पलायनपरो ययौ तदो जखानस हरिर्मुष्टिना दैत्यपुङ्गवं सक्षणम्बदिदो भूमौ तद उद्धाय वेगवान जखान शक्रं धरण्यां तमपादयद तद उद्धाय मखवा दैत्यं प्राहरुषान्वितः इदानीं मल्लयुद्धाय सज्जी सुरेश्वर तद स विस्मयाविष्ट उवाज बलगर्वितः किमर्थम् त्वं निजप्राणे निर्दयोऽसि सुरेश्वर कृमिकीडपदङ्गानां प्राणोऽतीव प्रियो मदः गच्छदेव धरण्यां ते स्थानं दत्तं मया शुभम् ब्रह्मोवाच इति तद्वचनं श्रुत्वा जगादबलवृत्रः यद्यहं जीवितां चाहि मोचयामि न चेद्रिपो तदा कं धरणीं यामि त्वदज्ञावशगोधम त्वमेव कदमूर्धाद्य धरणीं यास्य सेखल वदत्येवं तु देवेन्द्र दैन्योन्द्रो निजखानतम् मुष्टिना हृदये दुष्टस्तदो युद्धमभूतयोः चाणूरकृष्णयोर्यद्वत् परस्परजयैषिणोः हृदयं हृदयेनैव हस्तं हस्तेन जघ्नदुः जानुभ्यां जानुनीचोरु ताभ्यां तौ च निजघ्नदुः मस्तकं मस्तकेनैव कूर्परं कूर्परेण तु पृष्टं पृष्टेन पादाभ्यां पादौ तावभिजघ्नदुः पादौ गृहीत्वा दैत्योऽस्य भ्रामयित्वा मुहुर्मुहुः तत्याज दूरदशक्रं यथा न ज्ञायते क्वचिद आरुरोहस्वयं तं तु चतुर्दन्तम् गजेश्वरम् ततो देवगणाः सर्वे हिमवद्गिरिगह्वरं ययुश्चक्रं विचिन्वन्तो संत्रा सतापिताः कुत्र वा देवो द्रक्ष्यामो वा कथं विभुं एवं सञ्चिन्तयन्तस्ते भ्रमन्तो ददृश्युश्चतम् अधोमुखं समायान्तं देवेन्द्रं तं तदैव प्रणे मालि मालिलिङ्गस्तथा पूजया मासुरपरे बीजयामास कश्चन पादसंवाकनं चास्य चक्रु केचन सर्वे गुप्तरूपासुरास्तदा दैत्यस्त्वैरावदारूढो ययौ तामरावधीं देवस्थानानि दैत्यानामिन्द्रासनगदस्वयं ददौ विभज्य प्रत्येकं मानपूर्वं दिव्यवादित्र दिव्यवादित्रनिर्घोषाय शृण्वन् सेव्यमानस्तु रेमे गाधर्वन किन्हर स्यमस्तु रेम चापसरस गणई यी गणेशपुराणे उपासनाखंडे इंद्रपराजय नाइको न चरिशोध्याय ओम।